श्रीमन महाभारतं महात आदिपर्ण बकवधपर्वण बक भीमसुे दिष्ट्यधिकमो अध्याय युधिष्ठि उवाच उपन्निद्मा स्वयादुपूर्वक आर्त्य आर्तस्य से तुक्रोशादीद ध्रुवमेष्यति भीमोयं निहत्य पुरुषादकम् सर्वथा ब्राह्मणस्यार्थे यदनुक्रोशवत्यसि यथा त्विदं न विन्देयुर्नरानगरवासिनः तथाऽयम् ब्राह्मणो वाच्यः परिग्राह्यश्च यत्नतः वैशम्पायन उवाच युधिष्ठिरेण संमन्त्र्य ब्राह्मणार्थमरिन्दमा कुन्ती प्रविश्य तान् सर्वान् सान्त्वयामास ततो रात्र्यां यतीतायामन्नमादाय पाण्डवः भीमसेनो ययौ तत्र यत्रासौ पुरुषादकः आसाद्यतु वनं तस्य रक्षसः पाण्डवो बली आजुहावततो नाम्ना तदन्नमुपपादयन् ततः स राक्षसः क्रुद्धो भीमस्य वचनात्तदा आजगामसु संक्रुद्धो यत्र भीमो व्यवस्थितः महाकायो महावेगोदारयन्निव मेदिनीं लोहिताक्षःकरालश्च लोहितश्मश्रुमूर्धजः आकर्णाद्भिन्नवक्त्रश्च शङ्कुकर्णो विभीषणः त्रिशिखाम् भ्रुकुटिम् कृत्वा सन्दश्यदशनच्छदम् भुञ्जानमन्नम् तम् दृष्ट्वा भीमसेनम् स राक्षसः विवृत्य नयने क्रुद्धम् इदम् वचनमब्रवीत् कोयमन्नमिदम् मदर्थमुपकल्पितम् पश्यतो मम दुर्बुद्धिर् यया सुर्यमसाधनं भीमसेनस्ततः श्रुत्वा प्रहसन्निवभारत राक्षसं तमनादृत्य भुङ्क्तपराङ्मुखः रवं सभैरवं कृत्वा समुद्यं यकरावुभो भीमसेनं जिघांसुः पुरुषादकः